श्रीमन्महाभारतम् आदिपर्वणि आस्तीकपर्वणि तक्षकदंशे त्रिचत्वारिंशोऽध्यायः तक्षक उवाच यदि दष्टं मये हत्वं शक्तः किञ्चित् चिकित्सितुं ततो वृक्षं मया दष्टमिमं जीवय काश्यप परं यत्ते तद्दर्शय न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते काश्यप उवाच दश नागेन्द्रवृक्षं त्वं यद्येतदभिमन्यसे अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गमा सौतिरुवाच एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना अदशद्वृक्षमभ्येत्य निग्रोधं पन्नगोत्तमः स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना आशिविषविशोपेतः प्रज्ज्वालसमन्ततः दग्ध्वासनगम् नागः काश्यपम् पुनरब्रवीत् कुरु यत्नम् द्विजश्रेष्ठजीवयैनम् वनस्पतिम् सौतिरुवाच भस्मीभूतम् ततो वृक्षं पन्नगेन्द्रस्य तेजसा भस्म सर्वम् समाहृत्य काश्यपो वाक्यमब्रवीत् विद्याबलम् पन्नगेन्द्र पश्यमेद्यवनस्पतौ अहम् सञ्जीवयाम्येनम् पश्यतस्ते भुजङ्गम ततः भगवान् विद्वान् काश्यपो द्विजसत्तमः भस्मराशीकृतं वृक्षं विद्यया समजीवयत् अङ्कुरं कृतवाँस्तत्र ततः पर्णाद्वयान्वितं पलाशिनं शाथिनञ्च तथा विटपिनं पुनः तं दृष्ट्वा जीवितं वृक्षं काश्यपेण महात्मना उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि द्विजेन्द्रयद्विषं हन्या मम वा वा कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधना यत्तेऽभिलषितं प्राप्तुं फलं अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् विप्रशापाभिभूते च क्षीणायुषि नराधिपे घटमानस्य ते विप्रसिद्धिः संशयिता ततो यशः प्रदीप्तन्ते त्रिषु लोकेषु विश्रुतं निरंशुरिव धर्मांशुरन्तर्धानमितो व्रजेत काश्यपौवाच धनार्थीयाम्यहं तत्र तन्मे देहि भुजङ्गमा निवर्तिष्ये स्वापतेयम् प्रगृह्य वै तक्षक उवाच यावद्धनम् प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् अहमेव प्रदास्यामि निवर्तस्वद्विजोतम सौतिरुवाच तक्षकस्य वचः श्रुत्वा काश्यपो प्रतिबुद्धिमान् दिव्यज्ञानस्स तेजस्वी ज्ञात्वा तन्दृपतिं तदा क्षीणायुषम् पाण्डवेयमपावर्तत काश्यपः लब्ध्वा वित्तम् मुनिवरस्तक्षकाद्यावदीप्सितम् निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि जगाम तक्षकस्तूर्णम् नगर् अथ शुश्रावगच्छन् स तक्षको जगतीपतिं मन्त्रैर्गदैर्विषहरैरक्ष्यमाणं प्रयत्नतः सौतिरुवाच सचिन्तया मा सतदा माया योगेन पार्थिवः मया सौक उपायो भवेदिति ततस्तापसरूपेण प्राहिणोत्सभुजङ्गमान् फलदर्भोदकम् गृह्य राज्ञेनागोऽथ तक्षकः तक्षक उवाच गच्छध्वं यूयमव्यग्रा राजानम् फलपुष्पोदकम् नाम प्रतिग्राहयितुम् नृपम् सौतिरुवाच ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः उपनुस्तथाराजे दर्नापला चच्च स राजेन्द्र प्रतिजग्रहवीवा त्याण गम्यतामुवाच तन गु तुनाछदू अत्यांसुद प्रोवाचस नाधिप भक्ष वै स्वादू ने तापसैरुपनीतानि फलानि सहितामया ततो राजा सचिवः फलान्यादातुमैच्छत विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु यस्मिन्नेव फलेनागस्तमेवा भक्षयत् स्वयम् ततो भक्षयतस्तस्य फलात् कृमिरभूदणुः ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक सतङ्गृह्य नृपः श्रेष्ठ अस्तमभ्येति सत् सविताविषादद्यनमे भयम् सत्यवागस्तु समुनिः कृमिर्माम् दशतामयं तक्षको नाम वै तथा परिहृतं भवेत् ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः एवमुक्त्वा स राजेन्द्रो ग्रीवायाम् सन्निवेश्यः कृमिकम् प्राह सत्पूर्णम् मुमुर्षुर्नष्टचेतनः प्रहसन्नेव भोगेन तक्षकेण त्ववेष्ट्यत तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितुं वेष्टयित्वा च वेगेन विनद्य च महास्वनम् अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि तक्षकदंशे त्रिचत्वारिंशोऽध्यायः